नारदपुराणं पूर्वार्थम् अध्यायं 45. सूत उवाच सनन्तनवच श्रुत्वा मोक्षधर्माश्रितं द्विजाः पुनः पप्रचतत्वज्ञो नारदोऽध्यात्मसत्कथाम् नारद उवाच श्रुतं मया महाभागमोक्षशास्त्रं त्वयोदितम् न च मे जायते तृप्तिर्भूयो भूयोऽपि यदा यथा संमुच्यते जन्तुरविद्या बन्धनान्मुने तथा कथय सर्वज्ञमोक्षधर्मं सदाश्रुतं सनन्दन उवाच अत्राप्युदाहरन्दीममितिहासं पुरातनम् यथा मोक्षमनुप्राप्तो जनको मिथिलार्थिपः जनको जनदेवस्तु मिथिलाया अधीश्वरः और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने तस्य श्शानमाचार्या वसति सततं गृहे दर्शयन्तः पृथग् धर्मान्ना पाषञ्जवादिनः स तेषां प्रत्यभावे च प्रत्यजातौ विनिश्चये आदमस्तः स भूयिष्टमतत्वेन तुष्यति तत्र पञ्चशिखो नाम कापिलेयो महामुनिः परि धावन्महिं कृष्णां जगाम मिथिलामथ सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ऋषीणामाहुरेकं यं कामादवसितं नृषु शाश्वतं सुखमत्यन्तमन्विच्छन् स सुदुर्लभम् यमाहुः कपिलं साङ्ख्याः परमर्षिप्रजापदिं समन्ये तेन रूपेण विख्यापयदि हि स्वयम् आसुरे प्रथमं शिष्यं यमाहुश्चिरजीविनं पञ्चस्रोतसि यत्सत्रमास्ते वर्षसहस्रकम् पञ्चस्रोतसमागम्य कापिलं मण्डलं महद पुरुषावस्तमव्यक्तं परमार्थं न्यवेदयद इष्टिमन्द्रेण संयुक्तो भूयश्च तपसा सुरिः क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विभूधे देहदर्शनः देकाक्षरं ब्रह्म नानारूपं प्रदृश्यते आसुरिर्मण्डले तस्मिन् प्रतिपेदेत्तमव्ययम् तस्य पञ्च शिखशिष्यो मानुष्यापयसाभृतः ब्राह्मणी कपिली नाम काचिदासीत् कुटुम्बिनी तस्य पुत्रत्वमागत्य श्रियास्स पिबतिष्ठनौ ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीं यदन्मे भगवानाः कापिलेयस्य सम्भवं तस्य तत्कापिलेयत्वं सर्ववित्वमनुतमम् सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने उपेत्य शतमाचार्यान् मोहयामास हेदुभिः जनकस्त्वभिसंरब्धकापिलेयानुदर्शनम् उत्सृज्य शतमाचार्यान् पृष्ठतोनुजगामतं तस्मै परमकल्याणं प्रणताय च धर्मतः अब्रवीत् परमं मोक्षं यत्तत्साङ्ख्यं विधीयते जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीद कर्म निर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीद यदर्थं धर्मसंसर्गकर्मणां च फलोदयः तमनाश्वासिकं मोहं विनाशिचलमध्रुवं दृश्यमाने च प्रत्यक्षे लोकसाक्षिके आगमात् परमस्तीति ब्रुवन्नपि पराजितः अनात्मास्यात्मनो मृत्युप्लेशो मृत्योज्जरामयः आत्मानं मन्यदे मोह तद सम्यक् परं मदम् अथ चेदेवमप्स्यति अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते अजरोयमृत्युश्च राजासौ मन्यते यथा अस्ति नास्तीति चाप्येतस्मिन्नसितलक्षणे किमधिष्ठाय तद्ब्रूयाल्लोकयात्रा विनिश्चयं प्रत्यक्षं ह्येदयोर्मूलं कृतान्तः ह्येदयोरपि प्रत्यक्षो ्यागमो भिन्न वानकिंचना वा न किञ्चन यत्र तत्रानुमानेऽस्मिन् कृतं भावयदेपि च अन्यो जीवशरीरस्य नास्तिकानां मदे रेदो वटकणिकायां कृदः पाकाधिवासनं जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणं प्रदभूतप्रियश्चैव देवदाह्युपयाचनं मृदकर्मनिवृत्तिं च प्रमाणमिति निश्चयः नन्वेदेहेदवसन्ति ये केचिन्मूर्तिस्सस्थिताः अमोदस्य हि मूर्तेन सामान्यं नोपलभ्यते अविद्याकर्मतृष्णा च ते जिदाहुः पुनर्भवं तस्मिन्नष्टे जदग्धे च चित्ते मरणधर्मिणि अन्योऽस्माज्जायते मोहस्तस्माहुः सत्त्वसंक्षयम् यदा सरूपतश्चान्यो जातिदश्रुततोऽर्थतः कथमस्मिन् स इत्येव सम्बन्धस्यादसंहितः एवं सति च प्राप्रीहिर्ज्ञानविद्या तपो बलैः कर्म सामान्यात् प्रतिपद्यते अपि त्वय त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेद सुखितो दुःखितो वापि दृश्य दृश्य विनिर्णयः यथा हि मुशलैर्हन्युशरीरं तत्पुनर्भवेद वृथाज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते रुम संवत्सरौ तिष्यसि दोष्णोधप्रिया प्रिये यद्धा तादानि पश्यति तादृशसत्त्वसंक्षयः जरयाभिपरीतस्य मृत्युना च विनाशितम् दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति इन्द्रियाणि मनो वायुष्योणितं मांसमस्ति च अनुपूर्व्या विनश्यन्ति स्वं विधातश्च दान धर्म दानधर्मफलागमे तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः इति सम्यग् मनस्येते बहव सन्धिहेतवः ऐतदस्तीति नास्तीति न कश्चित् प्रदिदृश्यते तेषां विमृश्यतामेव तत्सम्यगभिधावताम् क्वचिन्निवत्सदे बुद्धिस्तत्र जीर्यति वृक्षवद एवं तुर्धैर्न एवं तुर्धैरनर्थैश्च दुःखिताः सर्वजन्तवः हस्तिपैर हस्तिनो यथा अर्थास्तथा हन्ति सुखा वहांश्च लिखत एदे बहवोपशुष्काः महतरं दुःखमभिप्रपन्ना हित्वा मिशं मृत्युवशं प्रयान्ति विनाशिनो ह्यध्रुवजीविनः किं किं बन्धुभिर्मत्र परिग्रहैश्च विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न च ूव्योमस्तोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति भवेद्विनाशिनाप्यस्यन भवेद्विनाशिनाप्यस्य न शम विद्यते इदमनुपथिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकं नरपदिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे जनक उवाच भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचिद एवं सति ज्ञानं वा किं करिष्यति सर्वमुच्चेदनिष्ठस्यात् पश्य चैतद्विजोत्तम अप्रमतः प्रमत्तो वा किं विशेषं करिष्यदि असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु कस्मै क्रियदकल्पेदनिश्चयपोत्रतत्वतः सनन्दन उवाच तमसाहिमदिक्षत्रं विभ्रान्तमिव चादुरं पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखो ब्रवीद पञ्चशिख उवाच उच्छेदनिष्ठानेहास्ति भावनिष्ठानविद्यते अयं ह्यपि समाहारशरीरेन्द्रियचेतसां वर्तते पृथगन्योन्यमप्युपाश्रित्यकर्मसु धातवः पञ्चधातोऽयं े वा योज्योतिषोद्धरा तेषु भावेन तिष्ठन्ति वियुज्यन्ते स्वभावदः आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः येष पञ्चसमाहारशरीरमपि नैकधा ज्ञानमूष्मा वायुश्च त्रिविधकायसङ्ग्रहः इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेदना मनः प्राणापानौ विकारश्च धातवश्चात्र निःसृताः श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च इन्द्रियाणे हि पंचैते गुणाः त्र विज्ञान संयुक्ता धाचेदनाध्रुवा सुख दुखेन दुखा सुखे शब्दस्पर्श मूर्तिमेत्र मंच सद्गुण ज्ञान सिद्ध ये तेषु कर्मण सि सर्वतत्वार्थनिश्चयः तमाहु परमं शुद्धिं बुद्धिरित्यव्ययं महद इमं गुणसमाहारमात्मभावेन पश्यतः असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यधीम् अनात्मेधिजयदृष्टं तेनाहं न ममेत्यपि वर्तते किमधिष्ठानात् प्रसक्ता दुःखसन्ततिः तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् शृणुया तच्च मोक्षाय भाष्यमाणम् भविष्यदि त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् नित्यमिद्या विनीतानां क्लेशो दुखा बहोत द्रव्यगे दुकर्मा भोगत्यागे व्रतागे सपना तर मगोय मद्वैधसर्वत्याग्स दर्शि विप्रहाय दुख से दुर्गतिर् तथा भवेत् पञ्चज्ञानेन्द्रियाण्युक्त्वा मनषष्ठानि चेदपि बषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु हस्तौ कर्मेन्द्रियं ज्ञेयमधपादौ गदीन्द्रियं प्रजनानदयो मेढ्रो विसर्गो युरिन्द्रियम् वाच्यशब्दविशेषार्थमिति पञ्चान्विदं विदुः एवमेकादशेदानि बुद्ध्या त्ववसृजन्मनः कर्मशब्दश्च चित्तं च त्रयश्रवणसङ्ग्रहे तथा स्पर्शे तथारूपे तथैव ं पंच गुणस्तुपल येनाधो भाव सात्विको सुपस्थित साको तेत्रयः, त्रिविधा वेदनायु प्रसृता सर्वसाधिनी प्रकर्षप्रीतिरानन्दः सुखं संशान्तचित्तता अकुतश्चित्कुतश्चिद्वा चित्तदसत्विको गुणः अतुष्टिपरितापश्च शोको लोभस्तदा क्षमा लिङ्गानि रजसस्तानि दृश्यन्ते अविवेकस्तथा मोहः प्रमादस्वप्नतन्त्रिता कथं चिदपि वर्तन्ते विविधास्तामसा गुणाः इमां च यो वेदविमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः कर्म न लिप्यदे कर्मफलैर्निष्ठपत्रं विशस्येव जलेन सिक्तं दृढैर्हि पाश्चैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च यदा ह्यसौ दुःखसौख्ये जहादि मुक्तस्तदाघ्र्याम् गदिमेत्यलिङ्गः श्रुतिप्रमाणगमङ्गलैश्च षेदि जरा मृत्युभया ददितः क्षीणे जपुण्ये विगते च पापे तनोर्निमित्ते जले विनष्टे अलेपमाकाशमलिङ्गमेवमास्ताय पश्यन्ति माहत्यशक्रा यथोर्णनाभिपरिवर्तमानस्थं तु क्षये तिष्ठति यात्यमानः तथा विमुक्तः प्रजहादिदुःखं विध्वंसदे लोष्टमिवादिमृच्छन् यथा रुरुशृङ्गमधो पुराणं हित्वा त्वजं वा प्युरगो यथा च विहाय गच्छन्ननवेक्षकमाणस्तथा विमुक्तो विजहादिदुःखं मध्यं यथा वाप्युदगे पतन्तमुत्सृज्यपक्षी निपतत्सशक्तः तथा ह्यसौ दुःखसौख्ये विहायमुक्तः परार्ध्या गदिमेत्यलिङ्गः इदममृतपदं निशम्य राजा स्वयमिह पञ्चशिखेन भाष्यमाणं निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहारवेदशोकः अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य न खु मम हि दह्य्र भूमिपालह किल स्म भूमिपाली यठदी विमोन निश्चय महामुने सदमेक्ष तथा उपद्रवानुभवेह्य दुखिद प्रमुच्य कपिल मैथिल बृहदीयुराणे पूर्वभागे बृहदुप्वी पादे पंचच्वतमोध्याय ओम